अरवतिमूणावद् दशकम् गोवर्धन उद्धरणम् तत्रुचिरे किल तत्क्षणमक्षत स्तनितजृम्बेदकम् पितदिक्तट सुषमया भवदङ्गतुलाम् गता व्रजपतो परिवारिदरास्त्वया विपुलकरजमिश्रे तोयदाराणिपाधये दिशि दिशि पशुपानाम् मण्डले दण्ड्यमाने कुपितहरिकृतान् पाहि पाकीति तेषाम् वचनमजित शृण्वन् मा बिबीतेत्य बाणी कुल गोत्रशत्रो विकति निकसरुन्ध्यात् को न वः संशयोऽस्मिन् इति सकसितावाधी देवगोवर्धनाद्रिम् त्वरितमुदमुमूलो मूलतो बालदोऽर्प्याम् तदनु गिरिवरस्य प्रोदृतस्यास्य ताभत् सिकतिलमृदुदेशे दूरतो वारितापे परिहर परिमिश्रान् धेनुगोपानतस्थात् उपनिददत्त हस्तपद्मेन शैलम् भवति वित्रुतशैले अपि विहितविलासम् के लति लोले सवित मिलित देनो रेगहस्तेन गण्टूयति सदि पशुपालास् दोषमैषन्त सर्वे अधिमहाङ्गिरिरेशतु मामके करसरोरुकितम् दरते निचिरम् गिमिदमद्भुतमद्ब्रिबलम्विति दतवलोगिबिराकति गोपकैम् अखकदाक्ष्य ममुष्यवटोर्गिरिम् व्यथितबाहुरसाववरोपयेत् इति हरिस्त्वयि बद्धविकर्हणो दिवससप्तकमुक्रमवर्षयत् अचलति गलितसर्वजले च गणोत्करे अबहृते मरुता मरुताम् पते त्वदपि शङ्कितधीसमुत्रवत् सममुपेयुषि वर्षबरे तदा पशुपदेनुकुले च विनिर्गते भुवि विभो समुपाचितभूतर प्रमुदितैः पसुबै धरणिमेव पुरा दृतवानसि क्षितितरोद्धरणे तव कश्रम इति नु दसिदसै कमलापते गुरुपुरालयपालयमाम् गता भजगोपाल प्यारी मुरारी मुरारीनन्दलाल